सर्वेषां नमस्कारः गतवर्गे अस्माकं विषयः आसीत् ज्ञानं तद्विषयता इति तस्मिन् सन्दर्भे अस्माभिः दृष्टं यत् ज्ञानं विषयि इति इत्युक्ते सर्वेषां ज्ञानानां विषयः भवति अतः ज्ञानस्य विषयः भवति एव विषयः अस्य अथवा अस्मिन् इति कृत्वा ज्ञानं विषयि इति उच्यते अपि च ज्ञाने विषयिता इति धर्मः विद्यते अपि च विषये विषयता इति धर्मः विद्यते इमौ द्वौ धर्मौ आधारीकृत्य विषयता च विषय इति धर्मद्वयं तद् आधारीकृत्य ज्ञानं विषयतासम्बन्धेन विषये अस्ति विषयः विषयितासम्बन्धेन विषये अस्ति इति वयं किञ्चित् तत्र चर्चितवन्तः उभयोः परस्पर आधाराधेयभावः वर्तते ज्ञानमपि च विषयः उभयोः परस्पर आधाराधेयभावः अत्र वृत्ति अनियामकसम्बन्धः इति वदामः तयोः मध्ये यतोहि ज्ञानमपि तस्य विषये भवति विषयः अपि ज्ञाने भवति इत्युक्ते यावत्पर्यन्तं कोपि पदार्थः नास्ति विश्वे तावत्पर्यन्तं तस्य पदार्थस्य ज्ञानमेव न भवति तर्हि ज्ञानं पदा पदार्थम् आधारीकृत्य तिष्ठति इति कृत्वा ज्ञानं तस्मिन् पदार्थे अथवा विषये भवति इति अपि च यावत्पर्यन्तं विषयस्य ज्ञानं न जायते अथवा पदार्थस्य ज्ञानं न जा, जायते तावत्पर्यन्तं सः पदार्थः अस्ति इत्यपि वयं जानीमः अतः पदार्थमपि वयं ज्ञानम् आधारीकृत्य एव पदार्थस्य ज्ञानम् आधारीकृत्य एव द्रष्टुं शक्नुमः इति तयोः मध्ये वृत्ति अनियामकसम्बन्धः अपि च अत्र विषयता इति सम्बन्धद्वयम् अस्माभिः दृष्टमासीत् विषयिता ज्ञाने वर्तते विषयता ज्ञानस्य विषये वर्तते इति सम्बन्धद्वयम् अस्तु इतः अग्रे गन्तुं शक्नुमः कोपि अस्ति वा नूतनतया रघुपतिमहोदया इति आं भगिनि अहं केवलं शृणोमि किमर्थं किञ्चित् प्रयत्नं करोतु अस्तु भवतु नाम अस्तु तर्हि सीमा भगिनी राधिकाभगिनी सर्लाभगिनी मेहुल् महोदय शिवरां महोदय विजयाभगिनी श्रीधर् महोदय रघुपतिमहोदय खलु अस्तु तर्हि इतः अग्रे सरेम किञ्चित् कृपया सर्वे त्रयस्त्रिंशत्तमे पृष्ठे यदस्ति तत् पश्यन्तु पृष्ठसङ्ख्या त्रयस्त्रिंशत् इति तत्र इत्थं हि सम्प्रदाये इति अस्ति सीमा भगिनी ततः आरभ्य कृपया पठति इत्थं हि सम्प्रदायज्ञानपदार्थं बोधयन्ति ज्ञानं दीपस्थानापन्नं विषयः प्रकाश्यः ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः सा प्रभा यस्मिन् पतति स ज्ञानस्य विषयः इत्युच्यते यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते अतः विषयः इति नोच्यते इतः पर्यन्तं तावत्पर्यन्तं कृपया अत्र दर्शितप्रकारेण सम्प्रदाये ज्ञान पदा ज्ञानम् एवं विषयं बोधयन्ति अत्र उदाहरणात् ज्ञानं दीपस्थानमस्ति विषयः तस्य दीपस्य प्रकाश्यः अस्ति हा एवं वक्तव्यमस्ति भगिनि अत्र प्रकाशः अपि च प्रकाश्यः इति शब्दद्वयमस्ति प्रका प्रकाशः प्रकाशः इत्युक्ते प्रभा या दीपात् आगच्छति सः एव प्रकाशः परन्तु अत्र घटः कः तत्र इति चेत् इत्युक्ते दीपेन प्रकाश्यः भवति न्यत् इति कर्मण्यर्थे विधीयते यद् प्रकाश्यते दीपेन अथवा ज्ञानेन सः प्रकाश्यः इति अस्तु अस्तु विषयः दीप् दीपप्रभया प्रकाश्यते अतः क्षम्यतां घटः दीपप्रभया प्रकाश्यते अतः घटः प्रकाश्यः अथवा विषयः अस्ति ज्ञानं दीपस्य प्रभा स्थानीय ज्ञानं दीपस्य स्थाने अस्ति अपि च तृतीयवाक्यं पठतु ज्ञानस्य दीपस्य या प्रभा सा विषयतासम्बन्धः अस्तु आं ज्ञानं दीपस्थाने अस्ति दीपस्य या प्रभा सा विषयतासम्बन्धः अस्ति घटेन सह विषयेन सह hmm. सा प्रभा यस्मिन् विषये पतति सः प्रकाश्यः इत्युच्यते सः ज्ञानस्य विषयः इत्युच्यते सत्यं यस्मिन् सा प्रभा न पतति सः न प्रकाश्यते अतः सः विषयः न भवि भवति mm -hmm. mm -hmm. हा समीचीनं भगिनि अस्तु पुनः एकवारं सारांशत्वेन चित्रे किं किम् की अस्ति इति कृपया चित्रे दीपः अस्ति सः दीपः ज्ञा ज्न्या, ज्ञानस्थानी अस्ति दीपे प्रभा अस्ति सा hmm. प्रभा घटे पतति प्रभाविषयता सम्बन्धेन घटेन सह अस्ति घटः प्रभया प्रकाश्यते अतः घटः विषयः अस्ति हा हा बहु समीचीनं घटः विषयः अस्ति पुनः दीपात् या विषयता आगच्छति सा कुत्र अस्ति सा विषय विषये अस्ति घटे अस्ति खलु कुत्रचित् पतति घटे पतति इति सप्तमी प्रयोगं कुर्मः इति चेत् अस्तु सा विषयता यद्यपि दीपात् आगच्छति तथापि सा विषयता घटे विद्यमाना तत्र पतति तत्र विद्यते इति वयं जानीमः अस्तु अस्तु अपि च अस्मिन् चित्रे समीचीनं भगिनि धन्यवादः अपि च अस्मिन् चित्रे अस्तु भानुचैतन्यमहोदय आगतवान् इति वा अस्तु महोदय श्रुणोति इति चेत् वक्तुमिच्छति चेत् वदतु भगिनि एकः संशयः अस्ति अत्र ज्ञानम् इति वदामः खलु तद् तु अहं सर्वेषां मनुष्याणां मध्ये तिष्ठति ज्ञानं वा अथवा एकः मनुष्यः एकस्य मनुष्यस्य एकः मनुष्यः किमपि जानाति तादृशज्ञानं वा समीचीनं भगिनी प्रथमतया ज्ञानम् अथवा बुद्धिः इति एकः गुणः ज्ञानं कुत्र वर्तते इति भवत्याः प्रश्नः खलु ज्ञानम् आत्मनि वर्तते यदा मयि ज्ञानं जायते तद् मम आत्मनि यदा भवती ज्ञानं जायते भवत्याः आत्मनि तथा अस्ति ज्ञानम् आत्मविषये यदा पश्यामः अग्रे आग एकः पदार्थः खलु एकम् एकं द्रव्यम् आत्मा तत्र पश्यामः जीवात्मा अपि च अभ्यागच्छति, इति विषयद्वयमपि आगच्छति अस्तु भगिनि समीचीनम् अस्तु हा अनेन यद् राधिकाभगिन्या पृष्टं तर्हि यद् ज्ञानं मयि अस्ति इति चिन्तयतु तद् प्रकटीकर्तुं शब्दस्य प्रयोगं करोमि खलु अत्र चित्रे घटः अयं घटः इति ज्ञानम् अपरेभ्यः वक्तुम् अहं कथं वदामि अयं घटः इति एव वक्तुं शक्नोमि तर्हि अयं घटः इति शब्दरूपेण प्रतिपादनं यदा भवति तद् ज्ञानस्य आकारः इति उच्यते सर्वेषां ज्ञानानाम् आकारः भवति शब्दरूपेण प्रतिपादनार्थम् अयं घटः इति अस्मिन् चित्रे बुद्धम् अस्तु अशुराधिका घटे विद्यमानं न ज्ञानेन विना भवति कस्य प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते उच्यते अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते तथा च घटनिष्ट निरूपकं ज्ञानम् इति सिद्धम् इयं च विषयतारूपा प्रभा घटे विद्यमाना न ज्ञानेन विना भवति यदि ज्ञानं न भवति तत्र घटे विद्यमाना विषयता न भवति अभयं दृष्टवन्तः वयं पूर्वं चित्रे दृष्टवन्तः प्रकाशः विषयता इति प्रकाशः इत्युक्तौ ज्ञानस्य इति उच्यते कस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य इति उच्यते प्रकाशः तु ज्ञानम् इति ज्ञानस्य ज्ञाने क्षम्यतां भगिनी तत्र किमपि क्लेशः अहं चिन्तयामि इति मनसि अस्ति तस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य इति उच्यते अत्र कोऽपि किमपि नूतनं नास्ति भगिनी विषयता इति प्रकाशः खलु आम् सः प्रकाशः कस्य इति चेत् ज्ञानस्य नाम ज्ञानेन विना गतः प्रकाशः न भवति इति वार्ता अस्तु oh, अस्तु अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते इदानीं वयं जानीमः प्रकाशस्य निरूपकं ज्ञानम् इति वयं जानीमः तथा च घटनिष्ठ विषयतानिरूपकं ज्ञानम् इति सिद्धम् अस्तु तर्हि अत्र प्रश्नः अस्ति यत् निरूपकं किं भगिनिरूपकं ज्ञाति ज्ञानं ज्ञानं निरूपकं न्यान। निरूपकम् इत्यत्र नूल् इति प्रत्ययः गायकः नायकः इत्यादिकं यः गायति सः गायकः तद्वद् यद् निरूपयति तद् निरूपकम् इति इत्युक्ते इत्य। ज्ञानं किमपि कार्यं करोति ज्ञानं कं निरूपयति अत्र अथवा किं निरूपयति कां निरूपयति यत्किमपि घटे विषयता अथवा घटनिष्ठविषयता घटनिष्ठविषयतां निरूपयति ज्ञानं खलु ज्ञानं विषयतां निरूपयति तर्हि विषयि विषयता कीदृशी इति चेत् स्व स्वनिरूपितविषय विषयता इति वक्तुं शक्यते इति स्वम् इति स्वीकरोतु ज्ञानेन निरूपित इति कृत्वा स्वनिरूपितविषयता सा कुत्र अस्ति घटे घटे अस्ति अतः यथा पूर्वमपि चर्चितवन्तः वक्तुं शक्नुमः यत् ज्ञानं स्वनिरूपितविषयतासम्बन्धेन घटे अस्ति इति वक्तुं शक्यते ज्ञानं विषयतां निरूपयति तेनैव सम्बन्धेन विषयतासम्बन्धेन घटे ज्ञानमस्ति अस्ति एवमेव विपरीतरीत्या वदामश्चेत् घटः इति कां निरूपयति विपरीतदिश्य वयं तु किमपि न वक्तुं शक्नुमः खलु किमर्थमित्युक्ते यदि ज्ञानं न भवति विषयता न भवति विषयता न भवति इति सत्यं परन्तु ज्ञाने ज्यान, विषयः अस्ति खलु ज्ञाने ज्ञान ज्ञाने विषयिता अस्ति खलु अक्षम्यता ज्ञाने विषयिता अस्ति हा इति सत्यं तर्हि एवमपि वक्तुं शक्यते खलु इदानीं चित्रं रचयामः अस्तु घटः इति अधोभागे लिखित्वा तस्य उपरि विषयता इति लेखितुं शक्नुमः वामभागे इति चिन्तयतु तस्य पार्श्वे एव इति लिखित्वा तस्योपरि किं भवति विषयिता विषयिता तर्हि घटनिष्ठविषयतानिरूपितविषयिताश्रयं ज्ञान विषयिताश्रयः ज्ञानमिति वक्तुं शक्यते खलु तर्हि वदतु अधुना घटनिष्ठविषयतानिरूपकं ज्ञानम् इति यथा वदामः तदा तद् तद्वदेव इति कां निरूपय इत, निरूपयति घटः विष घटनिष्ठविषयतानिरूपितविषयिताश्रयः ज्ञानम् इति Hmm. पश्यामः चेत् ज्ञानिता निरूपितविषयः इति गता सत्यं मम प्रश्नः अस्ति इदानीं निरूपकः घटः इति वदामि चेत् घटः निरूपकः इति वदामि चेत् घटः कां निरूपयति यथा ज्ञानं विषयतां निरूपयति घटः कां निरूपयति विषयितां निरूपयति हा समीचीनं विषयितां निरूपयति यद्यपि अत्र न उक्तं तथापि तादृशसम्बन्धः अस्ति उभयदिशि अस्तु तर्हि घटः संबंधेन ज्ञाने अस्ति इति वक्तुं शक्यते यथा ज्ञानं स्वेन एव संबंधेन घटे विद्यते तथा एव घटः स्वनिरूपितविषयितासम्बन्धेन ज्ञाने विद्यते इत्येव शक्नुमः अस्तु हा सम्यक् भगिनि गतवर्गे पुत्रत्वं च पितृत्वम् इति स्वीकृत्य वयं दृष्टवन्तः खलु पुत्रः अस्ति तस्मिन् पुत्रत्वम् परन्तु सः पुत्रः सर्वेषां पितॄणां पुत्रः इति नास्ति खलु पिता तस्य पितरी विद्यमानं पितृत्वं निरूपयति पुत्रः इति कृत्वा सः पुत्रः स्वम् इति स्वीकुर्मश्चेत् पुत्रः स्वनिरूपितपितृत्वसम्बन्धेन पितरी भवति एवमेव पिता स्वनिरूपितपुत्रत्वसम्बन्धेन पुत्रे अस्ति इति तादृशसम्बन्धः अस्ति उभयोः मध्ये एकम् अपरं निरूपयति इति कृत्वा तेनैव सम्बन्धेन अपरस्मिन् विद्यते इति बुद्धं वा सर्वेषां मनसि स्पष्टता अस्ति अस्तु हा समीचीनम् अस्तु तर्हि अग्रे सरेम सरला भगिनी अग्रे कृपया आम् भगिनी प्रकाशः अपि एषः त्रिविधः घटभूतलयोः संयोगं यद् ज्ञानं प्रकाशयति तत् निर्दर्शनं स्वीकुर्मः तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते आकारः इत्यस्य ज्ञान ज्ञानादि विषयक पदा पदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपं इति अर्थः इदानीं प्रकाशः अपि एष त्रिविधा या प्रभा ज्ञानस्य प्रभावविषयता अस्ति तस्याः त्रिविभाग त्रिविधाः सन्ति घटभूतलयोः संयोगः यत् ज्ञानं प्रकाशयति तत् निर्दर्शनं स्वीकुर्मः घटे घटभूतले अस्ति घटभूतलयोः मध्ये संयोगसम्बन्धः अस्ति घटभूतलयोः संयोगः यत् ज्ञानं प्रकाशयति तत् निर्दर्शनं कथं स्वीकुर्मः तस्य भूत घटभूतले अस्ति तस्य अन्य व्यवहारे वयं वक्तुं शक्नुमः शक्नुमः भूतलं घटवत् इति आकारः आकार इत्युक्ते शब्दप्रयोगः ज्ञानस्य शब्दप्रयोगः कथं भवति भूतलं घटवत् तस्य अर्थमस्ति भूतले घटम् अस्ति घटवत् इति मतु प्रत्ययः अस्ति मतु प्रत्यय इति वदति घटस्य सम्बन्ध भूतलम् अस्ति घट घटभूतलयो सम्बन्धः इति वयं जानीमः मत् यु, युजित्वा। घटवत् भूतलमिति न पुस्तकलिङ्गम् अस्ति तथा घटवत् भूतलम् इति भवति इत्यस्य सविषयक विषयकप्र पदार्थानां ये विषयाः ध्यान तस्या विषयः अस्ति या हा आ, अधुना अन्तिमवाक्यं प्रतिपादयति खलु आकारः इत्युक्ते घटवत् भूतल आकारः इत्युक्ते किम् इति अग्रिमवाक्यम् अस्तु भगिनि सम्यक् अग्रे आकार आकारः अहम् उक्तवती शब्द ज्ञानस्य शब्दप्रयोग प्रयोगः भवति तस्य न्यायशास्त्रे आकारः इति व वयं वदामः अन्य रीत्या ज्ञानस्य उपयोगम् अस्ति आकारः इति अर्थम् तस्य इदानीं भूतलं यथा प्रथमे चित्रे घटः अस्ति अयं घट इति ज्ञानस्य आकारः अस्ति द्वितीयचित्रे भूतलं घटवत् इति ज्ञानस्य आकारः अस्ति सच् समीचीनं भगिनि ज्ञानस्य आकारः अस्ति हा अधुना यद् उक्तवती आसीत् आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ये विषयाः विषयाः तस्य विषये प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थः um, सो so, uh, ज्ञानादि सविश् सविषयकः इत्युक्ते विषया uh, विश् uh, विषयै uh, ज्ञानस्य ये विषयाः अस्ति ते तेषां तैः सहित यः पदार्थः अस्ति ज्ञानस्य विषयः अस्ति ज्ञान यथा उपरि वयं दृष्टवन्तः ज्ञानस्य विषयः घटः अस्ति इदानीं भूतलं घटवत् तत् तस्य तत् आकारे ज्ञानं भूतलं ज्ञानस्य विषयः त्रयः सन्ति घटः अस्ति घटभूतलवत् मीन्स् घटभूतले अस्ति सो घटभूतले मध्ये संयोगसंयो सम्बन्धः अस्ति तद् द्वितीयविषयं भवति संयोगः तृतीयविषयः अस्ति भूतलं जस् घटस्य आधारः वा अधिकरणमस्ति भूतलं सो अत्र घटभूत भूतल घटवत् इति सूचयति भूतलम् अधिकरणं घट तस्य आधेय भवति भूतलस्य विशेषणं घटव तदग्रे आगच्छन्ति मम प्रार्थनादि सविषयकपदार्थः सविषयकः इत्युक्ते किं सविषयक मीन्स् विषयसहित हा विषयसहित ज्ञानं विषयसहित अस्ति वा ज्ञानं विषयसहित विषयसहित ज्ञानं यदि प्रकाशयति कुत्र प्रकाशयति एषा विषय विषय ज्ञान ज्ञानं विषयान् प्रकाशयति तर्हि हा ज्ञानं सर्वदा सविषयकपदार्थः सविषयकः सविषयकः इत्युक्ते विषयेन सहितं सविषयकम् इति तादृशपदार्थः अस्ति ज्ञानम् अस्तु हा तर्हि ज्ञानादिसविषयकपदार्थानां ये विषयाः इति उक्तवन्तः बहुवचने ये विषयाः अस्मिन् अधस् अधस्तनचित्रे के के विषयाः सन्ति त्रयविषयाः सन्ति घटः संयोगः भूतलं बहु समीचीनं त्रयः विषयाः सन्ति इति चेत् कति विषयताः त्रयविषयताः सन्ति हा त्रय तिस्रविषयताः सन्ति सत्यं तिस्रः विषयी विषयताः सन्ति यतोहि विषयाः त्रयः अपि च त्रयः अस्ति हा अत्र इत्युक्ते विषयाणां तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपमिति अर्थ विषयितानां पदार्थानां प्रकानां शब्देन प्रतिपादितं स्वरूप इत्यर्थं तेषाम् इत्युक्ते किं पदार्थानां विषयपदा विषया विषयाणाम् इत्युक्ते ये विषयाः सन्ति ज्ञानस्य विषयाः प्रकाशिताः खलु एव तर्हि तेषां विषया शब्देन शब्देन प्रतिपादितं ये विषयाः प्रकाशिताः सन्ति तस्य कथं वयं शब्द उपयोगं कुर्मः तस्य स्वरूपम् इति भवति ज्ञानस्य आकाराय <laughs> ज्ञानस्य हा स्वरूपमेव आकारः सम्यक् तर्हि अधस्तनचित्रे आकारः कः पुनः समीचीनं भगिनि भूतलं घटवत् इति अधस्तनचित्रस्य आकारः उपरितनचित्रस्य आकारः अयं घटः अयं घटः हा, हा।, हा। सम्यक् तर्हि एवमेव ज्ञानानाम् आकारः भवति अपि च अस्मिन् ज्ञाने द्वितीयचित्रे विषयत्रयं यथा भगिनी उक्तवती तत्र घटः भूतलं घटभूतलयोः संयोगः इति त्रयः विषयाः सन्ति विषयाः त्रयः इति चेत् अवश्यं तिस्रः विषयताः अपि भवेयुः अस्तु तस्य विषये अग्रे किञ्चित् दत्तमस्ति पश्यामः हा हा अस्तु भगिनि श्रीधर्महोदय प्रथमं सीमा भगिनी पूर्वे उक्त ज्ञानं शणकम् एव एकस्मिन् शने एकस्य ज्ञानम् एव भवति अतः घटस्य ज्ञानम् एकस्मिन् शने भवति संयोगस्य ज्ञानम् अन्यस् अन्यक्षणे भवति अतः कटस्य ज्ञानं भिन्नं संयोगस्य ज्ञानं भिन्नं ज्ञानम् अपि भिन्नं अस्तु भवती उक्तवती ये ज्ञाने त्रयः विश् त्रित्रयः विषय सन्ति न ना, ना, ना, ना, ना. हा, हा, हा न न न हा प्रश्नः समीचीनः महोदय यतोहि ज्ञानं क्षणिकम् इति वदामश्चेत् तेन आधारेण एकः एव विषयः भवतु इति भवतः चिन्तनं खलु परन्तु अस्माकं मनसि ज्ञानं किम् इति चिन्तनीयम् आत्मनि वस्तुतः ज्ञानमात्मनि यदि वयं भूतलं घटे पश्यामः तस्मिन् क्षणे एतत् त्रयमपि घटः भूतलं घटभूतलयोः संयोगः इति ज्ञानम् उदेति इति वार्ता भूतलं घटवत् उक्तवन्तः सत्यं सत्यं महोदय एकमेव ज्ञानं भूतलं घटवत् इति सम्पूर्णम् एकमेव ज्ञानं यदा उपरितनचित्रे पश्यतु केवलं घटं पश्यति इति चिन्तयतु अस्तु घटः कुत्र अस्ति भूतले अस्ति वा उत्पीठिकायाम् अस्ति चिन्तयति केवलं घटं पश्यति चेत् तत्र भिन्ना वार्ता परन्तु भूतले घटं पश्यति चेत् क्षणिकं ज्ञानम् एव उदेति ज्ञानं क्षणिकम् इति सत्यं किन्तु तद् ज्ञानमस्ति भूतलं घटवत् इति अस्तु तत्र विषयत्रयम् अवश्यं भवति इति बुद्धं वा क्षणिकमि न त्रीणि न सन्ति क्षणिकम् इत्युक्ते कालदृष्ट्या कालदृष्ट्या क्षणिकम् एकं क्षणम् इति विषयदृष्ट्या एकमिति नास्ति केवलं पुस्तकस्य उपरि अवधानं भवति चेत् अस्तु इदं पुस्तकमिति ज्ञानं पुस्तकम् उत्पीटिकायाम् अस्ति उत्पीटिका पुस्तकवती इति चेत् तत्र तत् ज्ञानमेव अवधानं तथा अस्ति चेत् भूतं सर्वदा so, ज्ञानम् एकमेव भवति वा एक, एक, क्षणिकमिति चेत् एकस्मिन् क्षणे एकमेव ज्ञानम् इति वार्ता घटमेव पश्यति चेत् एकस्मिन् क्षणे अयं घटः इति किन्तु ज्ञानस्य क्षणिकज्ञानस्यापि त्रयः विषयताः इति भवितुम् अर्हति बुद्धं महोदय अस्तु सीमा भगिनी आम् मम प्रश्नः अस्ति भगिनि आकारः त्रयः सन्ति न वा यथा भूतलं घटवत् hmm. एकं घटभूतलयोः um, um, संयोगः द्वितीयं uh, तृतीयं भूतले um, घटः अस्ति एवं वक्तुं oh, शक्नुमः अवश्यं भगिनी वक्तुं शक्यते भवती शब्देन कथं प्रतिपादयति इति भवत्याः इच्छा वक्तुं शक्नोति अत्र भूतलं घटवत् इति स्वीकृतवन्तः यतोहि अनेन सम्बन्धः कः विषयता कीदृशी इत्यादि इत्यादीनां इत्या प्रतिपादनं समीचीनतया भवति इति तदर्थम् <laughs> अस्तु <laughs> अस्तु नूतन <laughs> <थिया। एक> <laughs> हा अस्तु राधिका भगिनि इदानीं वयं दृष्टवन्तः विषयतात्रयम् अत्र चित्रे अस्ति तादृशमपि विषयितात्रयमपि वयं वयं जानीमः खलु तत्र अग्रे आगच्छति सः एव विषयः आगच्छति बेहल महोदय अग्रे कृपया अस्तु अत्र घटे एका प्रभा वर्तते संयोगः घटभूतलयोः सम्बन्धः तत्र एका प्रभा वर्तते एवं भूतले एका प्रभा वर्तते भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम् भूतलं विशेष्यं तत्र सर्वासां प्रभाणां विषयता इति एकैव यदि संज्ञा स्यात् तर्हि किं विशेषणं किं विशेष्यम् इति न अतः तत्र तत्र विद्यमानायाः विषयतायाः संज्ञान्तरं कर्तव्यं विशेषणे विद्यमाना प्रभारूपविषयता प्रकारता इति कथ्यते संयोगे विद्यमाना प्रभा संसर्गता इति एवं विशेष्य विद्यमाना प्रभा विशेष्यता इति कथ्यते अत्र आ, अत्र चित्रे वयं दृष्टवन्तः तत्र दीप इति ज्ञानम् अस्ति दीप् दीप दीपात् दीपा यः य प्रभा घटः उपरिपति तत्र त्रयविषय त्रयविषयाः सन्ति प्रथमघटः द्वितीयघटभूतलसंयोगः अपि च भूतलं आ, अत्र घटे एका आ, गट, प्रभा वर्तते इत्युक्ते एकस्मिन् एकस्मिन् प्रभा घट घट अन्यत्र प्रभा संयोगः घटभूतलयोः संयोग उपरि पतति तत्र एका प्रभा वर्तते अनन्तरं तिस्रः प्रभा भूतले वर्तते अत्र भूतले संयोगेन विद्यमानः घटः वयं दृष्टवन्तः भूतलं घटवत् इति उदाहरणे यः घटः अस्ति तद् घटः भूतलस्य विशेषणम् अस्ति इत्युक्ते भूतलविशेष्य घटः विशेषणम् महोदय तस्य विषये किञ्चित् वदति वा सरला सरलाभगिनी किञ्चित् उक्तवती भूतलं घटवत् इत्यनेन किं जानीमः यः यः घटः भूतल उपरि अस्ति अयं घटः hmm. इति एकः घटः अस्ति परन्तु एतत् भूतल कथमस्ति घटवत् अस्ति अतः भूतलस्य विशेषणं घट इति भवति घटः इति समीचीनं तर्हि भूतलं कीदृशम् इति कोऽपि पृच्छति चेत् उत्तरं किं स्यात् घटवत् भूतलम् घटवत भूतलम् इति भवति खलु बालकः अस्ति उन्नतः कश्चन बालकः कीदृशः इति कोऽपि पृच्छति चेत् उन्नतः बालकः इति वदामः तर्हि उन्नतः इति विशेषणम् अत्र घटवत भूतलं भूतलं कीदृशं घटवत। इति अस्ति तर्हि विशेषणं किम् अत्र घटवत् इति किमर्थं विशेषणं नास्ति भूतलं द्वितीयविभक्तिः अस्ति अतः अहं चिन्तयामि यत्र घटः किं कीदृशभूतल घटवत् भूतल अतः घटः इति विषयः भवति विशेषणं भवति भूतल इति विशेष्यं भवति हा वस्तुतः प्रथमविभक्त्या अस्ति भूतलम् इति प्रथमाविभक्त्या नपुंसकलिङ्गे अस्ति न नपुंसकलिङ्गे पुस्तकं वत् भूतलं तदर्थमेव वत् इति मतुप्रत्ययः नपुंसकलिङ्गे घटवत् भूतलं यद्यपि घटवत् इति पदं दृश्यते तथापि घटवत् विशेषणवाचकम् इति वदामः विशेषणवाचकं वस्तुतः विशेषणमस्ति घटः यतोहि घटः एव भूतलं विशेषयति अथवा गटेन भूतलं विशिष्यते अथवा डिफ़्रेन्शियेट् भवति पृथक् भवति भूतलम् अतः गटः विशेषणं घटवत् इति विशे विशेषणवाचकपदम् इति ज्ञेयम् उदं उन्नतः बालकः इति यदा वदामः तथापि औ औन्नत्यम् अथवा उन्नतता इति यः गुणः बालके अस्ति औन्नत्यम् इति सः गुणः वस्तुतः उन्नतः इति विशेषणवाचकम् आम् अत्रापि तथैव इति विशेषणं वस्तुतः इति सम्यक् अस्तु तर्हि अग्रे तत्र सर्वासं तत्र अत्र प्रभा त्रयः सन्ति तिस्रः प्रभाः सन्ति तत् सर्वे प्रभाः विषयता इति यदि वयम् एक एव संज्ञा दत्तवान् तर्हि किं विशेषणं किं विशेषम् इति वयं न ज्ञातुं शक्नुमः अतः तत्र तत्र प्रत्येकं विद्यमानायाः विषयतायाः किमर्थं किं किञ्चित् नामकरणम् इति भवेत् अतः विशेषणे अत्र प्रभा तिस्रः सन्ति प्रथम प्रभा गटे वर्तते तत्र तस्य नाम प्र, प्रकारता इति दत्तमस्ति अत्र द्वितीयप्रभा द्वितीयं प्रभा भूत भुतल, घटभूतलसंयोगे वर्तते तस्य नाम संसर्गता इति अस्ति अनन्तरं तिस्रः प्रभा भूतले वर्तते तस्य नाम विशेष्यता इति त्रय त्रयः नाम दत्तं संज्ञाकरणं नामकरणं त्रीणि नामानि तिस्रः प्रभाः अथवा विषयताः विशेषणे घटे विद्यमाना अस्ति प्रकारता संयोगे विद्यमाना प्रभा अथवा विषयता संसर्गता इति अपि च विशेष्ये इत्युक्ते भूतले विद्यमाना विशेष्यता सम्यक् इति नामकरणं संज्ञान्तरम् इत्युक्ते नामकरणं संज्ञाकरणम् इति चिन्तयन्तु अस्तु तत् कृतमस्ति कोऽपि प्रश्नः वा अत्र अत्र प्रखरता विषयता अस्ति वा विशेष्यता विषयता इति अर्थं संसर्गता विषयता इति सत्यं संसर्गता अपि विषयता प्रखरतापि विषयता विशेष्यतापि विषयता किन्तु विषयता त्रयमस्ति खलु महोदय एका एव विषयता इति वयं सर्वे मनुष्याः परन्तु भिन्नभिन्ननामानि सन्ति अस्माकं खलु एवमेव वेदं ज्ञातुं विषयतानां मध्ये संज्ञान्तर संज्ञान्तरं जातम् अत्र इति उद्धं समीचीनम् अस्तु अग्रे विजया भगिनी पठति वा अग्रे भगिनि यथा अस्माकं विशेषसञ्ज्ञाः गणेशादे गणेशादयः कुलसंज्ञाः सामान्यरूपाः शुक्लादयः भवन्ति इति गणेशसंज्ञकः शुक्लः गणे शा गणेशाख्यः शुक्लः इति व्यवहारः तथा ज्ञानस्य पदार्थानां च यथा सम्बन्धः तस्य सामान्यसंज्ञा विषयता इति विशेषसंज्ञा प्रकारता संसर्गता प्रकारता संसर्गता विशेष्यता इत्येवं रूपाः भवन्ति तदा च घटे प्रकारतास्य विषयता वर्तते संयोगे संसर्गतास्य विषयता वर्तते भूतले विशेष्यता स्य विषयता वर्तते एवं च कटनिष्ठ प्रकारताख्यविषयतानिरूपकं ज्ञानं संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानं भूतलनिष्ठ विशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति सर्वत्र न्यायभाषया विवरणं भवेत् अस्तु भगिनि आरम्भतः कृपया अस्माकं विशेषसंज्ञा विशेषसंज्ञा गणेशादयः इत्युक्ते तत्र सामान्य ज्ञानमत्र सामान्यसञ्ज्ञे ज्ञानमत्र अस्ति न न सामान्यमिति न वक्तव्यं वा वाक्यं पठतु विशेषसंज्ञा गणेशादयः कुलसंज्ञा सामान्यरूपा शुक्लादयः तस्यार्थः कः तत्र विशेषसंज्ञा गणेशादयः गणेशादयः रघुपतिमहोदय किमुक्तवान् सत्यं सत्यं तर्हि गणेशुक्ल इति वदति चेत् तत्र विशेषसंज्ञा का अपि च सामान्यसंज्ञा का वि पुनः उच्चैः महोदय न श्रुतं विजया भगिनी गणेशः विशेषः शुक्लः सामान्य सामान्य शुक्लजाति गणेशः विशेषः नामा, हा नाम कुलसंज्ञा इति सामान्यम् गणेशशुक्लः रमेशुक्लः तथा भवितुमर्हति खलु विजयाभगिनी वा शुक्ल इति सामान्यं शुक्लः इति सर्नेम् इति सामान्यं विशेषसंज्ञा गणेश रमेश उमेश इत्यादयः संज्ञाः भवन्ति इति अस्तु अग्रे पठतु भवन्ति इति गणेशसंज्ञः शिक्षः गणेश गणेशाख्यः शिख्यः इति व्यवहारः तत्र सन्ति तदा ज्ञानस्य पदार्थानां ता च यदसम्बन्धः तस्य ता सामान्यसंज्ञा विषयता इति विशेषसंज्ञा प्रकारता संसर्गतविशेष्यता इति एवं रूपाः भवन्ति तत्र सामान्यसंज्ञा विषयता विषयता सामान्यसंज्ञा इति द्विप्रकारम् अस्ति विशेषसंज्ञाप्रकारता संसर्गता विशेषता इति एवं रूपाः तत्र सन्ति अहं न जानामि किम किं विवरणं कर्तुम् अत्र किमस्ति इति वर्तते भगिनि चिन्तयतु फस् प्रथमतया अत्र नूतनं किमपि अस्ति गणेश आ गणेशाख्यः इति उक्तम् आख्यः इत्युक्ते किम् हा नामकः गणेशनामकः हा गणेशनामकः शुक्लः अथवा गणेशसंज्ञकः शुक्लः तद्वदेव ज्ञानस्य अपि च पदार्थानां कः सम्बन्धः अस्ति ज्ञान ज्ञान ज्ञान हा ज्ञानपदार्थ सम्बन्धस्य नाम किं ज्ञानस्य अपि च पदार्थस्य मध्ये विषयतासम्बन्धः खलु हा ज्ञानस्य पदार्थानां च सम्बन्धः सामान्यसंज्ञा विषयता विषयता इति कति विषयताः सन्ति अस्माकम् इति तिस्रः विषयताः तिस्रः विषयताः आसन् खलु भगिनि अस्तु एवं कुर्मः किञ्चित् शृणोतु शृणोतु रघुपति साहाय्यं करोति वा आम् अत्र तिस्रः विषयका विषयकाः सन्ति एकं एकं घट घट ज्ञान घट सारि संयोगविषयता घटविषयता भूतलं विषयता अत्र त्रीणि सन्ति त्रि तिस्रः सन्ति अत्र एते वयं शुक्लः इति इति नामकरणं कर्तुं शक्नुमः सर्नेम् इति अतः वयं दृष्टवन्तः घटे विद्यमानविषयता अस्ति प्रखरता इति नाम दत्तवन्तः पूर्व पूर्वतनपृष्टे प्रखरता संयोग संयोगे संयोग विद्यमानविषयता अस्ति संसर्गतविषयता भूतले विद्यमान विषयता विशेष्यता आख्या अतः तिस्रः प्रखरता आख्यविषयता संसर्गताख्यविषयता विशेषख्य विशेषत विशेष्यताख्यविषयता समीचीनं महोदय आख्या इत्युक्ते नामक इत्युक्ते अस्तु अग्रे पठतु तथा च घटे तथा च घटे प्रकरताख्यविषयता वर्तते संयोगे सा, संसर्ग सं, संसर्गताख्यविषयता वर्तते भूतले विशेष विशेष्यताख्यविषयता वर्तते एवं च घटनिष्ठप्रकरताख्यविषयतानिरूपकं ज्ञानं भवति तथा संयोगनिष्ठ संयोगनिष्ठ संसर्गताख्यविषय विषयतानिरूपकं ज्ञानं भूतरनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति सर्वत्र न्यायभाषया विवरणं भवेत् तत् किञ्चित् विवृणोति वा अन्तिमवाक्यं उक्तं भवता तत् समीचीनं च पदार्थस्य यः सम्बन्धः तस्य नाम किं ज्ञानस्य पदार्थसम्बन्ध विषयतासम्बन्धः नाम त्रयविषयता त्रिस्रः विषयतः सन्ति अतः संय् त्रि त्रय त्रयः पदार्थाः सन्ति घट संयोगभूतलम् अतः भूतलजानयोः सम्बन्धः सम्बन्धः यः अस्ति विषयता अस्ति ये भूतले विद्यमानविषयता अस्ति विशेष्यता विशेष्यता अतः विशे, विशेष विशेषताख्य सोरि भूतलनिष्ठ विशेषताख्यविषयतानिरूपकं ज्ञानं भवति तथा च संयोग संयोग संयोग अत्र संयोगनिष्ठ संसर्गता संसर्ग संसर्गता आख्य विषयता तथैव संयोगनिष्ठसंसर्गताख्यविषयता भवति ज्ञानम् ज्ञानं पूर्णतया वक्तव्यम् अस्तु संयोगनिरूपकं ज्ञानं निरूपकं संयोगनि संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानं प्रथमतया निष्ठा इत्युक्ते किम् अत्र निष्ठत्र वर्तते ah, समीचीनं समीचीनं तावदेव यद् भवान् सरल सरलतया उक्तवान् वर्तते विद्यमान इत्येव अत्र निष्ठपदेन सूचितं संसर्गता कुत्र वर्तते सं, संसर्गता सं, संयोगे संयोग. hmm, संयोगे संसर्गता वर्तते इति कृत्वा संयोगनिष्ठसर्गता अपि च पुनः संसर्गताख्य विषयता अस्ति तन्निरूपकमस्ति ज्ञानम् इति कुत्र वर्तते विशेष्यता विशेषता सामान्य अस्ति घटे संयोगे भूतलं विशेष्यता विशेष्यता विशेषता सोरि विशेषता विशेषता भूतले हा अतः न्यायभाषया कथम् उच्यते भूतलनिष्ठ विशेषता विशेषताख्य विषयता विषयतारूप ज्ञानं सर्वदा कमपि निरूपयति इति मनसि भवेत् तदर्थं निरूपकं ज्ञानम् इति वदामः ज्ञानम् अत्र किं किं निरूपयति इति द्रष्टव्यं विशेष्यतां निरूपयति संसर्गतां निरूपयति अपि च Anyat ke? An-anyat prakaratam niropayati Prakaratam niropayati. Prakarata kutra ornamentate. Prakaratam. Prakarata kutra patreon. GatyeWArt harta Dir. Atah? Prakarata.. Prakarata.. Prakarata.. Akya vishayata niropakam Niropakam jnāna Gatanishta. Iti vadama hanyanam. Gatanishta. Gatanishta Prakarata सम्यक् ज्ञानं कीदृशम् इति चेत् एतत् सर्वं वक्तुं शक्यते घटनिष्ठप्रकारधाक्यविषयतानिरूपकं ज्ञानं संयोगनिष्ठसंसर्गधाक्यविषयतानिरूपकं ज्ञानम् अपि च भूथलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानं तादृशमस्ति ज्ञानम् इति न्याय न्यायभाषया एकमेव ज्ञानं तस्मिन् ज्ञाने त्रयः विषयाः अपि च एकेन ज्ञानेन इमाः विषयकाः निरूपिताः इति अस्तु प्रश्नः किं भगिनि तत्र भगिनि तत्र कुलसंज्ञा शुक्लादयः गणेशादयः एतत् एव एतत् सर्वं संज्ञा एव वा तत्र सत्यं भगिनि केवलम् उदाहरणार्थम् उक्तं गणेशः इति विशेषसंज्ञा यथा प्रकारता संसर्गता अपि च किं विशेष्यता इति गणेशः इति विशेषसंज्ञा शुक्लः इति सामान्यसंज्ञा यथा विषयता तदर्थमेव प्रकारताख्यविषयता संसर्गताख्यविषयता विशेषताख्यविषयता इति तो, त्रीणि ज्ञानानि अपि सन्ति न अयं कटः अयं भूतलम् अयं संयोगः इति त्रीणि ज्ञानानि अपि वर्तन्ते यदि परन्तु भूतलं घटवत् इति एकं ज्ञानं यदि भवान् भूतलमेव पृथक्तया पश्यति चेत् तदा इदं भूतलम इति अयम घटः इति पृथक्तया एव घटस्य दर्शनं भवति चेत् नो चेत् भूतलं घटवत् इत्यत्र एकमेव ज्ञानं त्रयः विषयाः इति भूतं वा महोदय सीमाभगिनी प्रश्नः आसीत् भगिनी ज्ञाने विषयिता अस्ति अत्र विषयता त्रयम् अस्ति किन्तु विषयिता एका एव अग्रे पश्येम राधिका भगिनी अपि पृष्टवती पश्यम अग्रे आगच्छति इति अस्तु अस्तु अस्तु समीचीनं विजया भगिनी तर्हि सारांशत्वेन वदतु अत्र कति विषयताः सन्ति विषयताः तिस्रः सन्ति एतद् वयं पठामः एतदेव खलु भगिनि घटनिष्ठा घटनिष्ठ घटनिष्ठ घटनिष्ठ प्रकारताख्यविषयतानिरूपकं ज्ञानम् एकं संयोगनिष्ठ संसर्गताख्यविषयतानिरूपकं ज्ञानं भूतलनिष्ठविशेष्यताख्य एकनिमिष भगिनि एक एक भवती ज्ञानस्य निरूपणं कृतवती ज्ञानम् एकमेव अहं किं पृष्टवती तिस्रः विषयताः काः इति तिस्रः विषयतः काः इति वि चेत् घटनिष्ठप्रकारता इति एकः एका विषयता संयोगनिष्ठसंसर्गता इति एका विषयता भूतलनिष्ठविशेषता इति एका विषयता बुद्धं वा इति तिस्रः विषयतः इति अस्तु अग्रे गच्छेम किम् अस्तु इतः अग्रे श्रीधर् महोदय कृपया इति आरभ्य न विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परम् अपि निरूप्यन्ते प्रकारता निरूपिता विशेषता इव विश श्रूयते एव, तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपित ष्ठ विशेषता वक्त विषय का यहां ज्ञान्यपरम निप्यंते ज्ञान तिरा विषय का अकारेण विषय विषयतायाः अपि ज्ञानं निरूप्यन्ते निरूप निरूप्यते न वाक्ये वाक्ये किमस्ति विषयविषयताः विषयताः यथा ज्ञानेन निरूप्यन्ते हा ज्ञानेन तिस्रः विषयतः निरूप्यन्ते इत्युक्ते ज्ञानं निरूपकं खलु हा ज्ञानं निरूपकं तथा अधुना विषयतापि निरूपकं भवितुमर्हति तत् परस्परम् अपि निरूप्यन्ते समीचीनं निरूपिता भवति प्रकारतानिरूपिता विशेषता इव विशेष्यतानिरूपिता प्रकारता इति अपि सम्भवति प्रकारतानिरूपिता विशेष्यता इव विशेष्यतानिरूपिता प्रकारता इति अपि परस्परं तत्र नाम मनसि एकं चित्रं कल्पयन्तु भूतले अस्ति भूतले एकं चित्रं कल्पयन्तु घटः इति अधोभागे लिखतु वामभागे घटस्य उपरि किं भवति अस्तु तस्य विषयताः नाम किं घटः तस्य उपरि प्रकारता तस्य पार्श्वे तस्य पार्श्वे एव भूतलम् इति लिखति चेत् तस्य उपरि किं भवति विशेष्यता विशेष्यता अधुना अधुना निरूपित इत्यादिकम् उपयुज्य वाक्यं कथम् इति घटनिष्ट प्रकाररूपित विशेष्यता विशेषतावत् भूतलं हा अथवा विशे भूतलनिष्ठनिष्ठप्रकारतानिष्ठनिष्ठ विशेष्यता समीचीनम् अपरक्षं भूतलनिष्ठ विशेष्यतानिरूपितघनिष्ठप्रकारता हा बहु सम्यक् समीचीनम् इति एव वार्ता अत्र तादृश परस्परनिरूपकता अस्ति इति एवं संसदता इत्यपि निरूपक निरूपक अहमेव पठामि वा अग्रे तथा च पूर्वोक्ते हा तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेषतानिरूपकं ज्ञानम् अधुना एव उक्तं हा सम्यक् अधुना किमुक्तं घटनिष्ठप्रकारता निरूपित भूतलानिष्ठविशेष्यता तावत्पर्यन्तम् उक्तं खलु ज्ञानं कं निरूपयति न अत्र वाक्ये ज्ञानं कं निरूपयति विषयतां निरूपयति विषयतां अत्र कीदृशीं विषयतां निरूपयति क्यखण्डेष्ठतानिरूपकं ज्ञानं पुनः भूतलनिष्ठविशेषता कीदृशी इति चेत् घटनिष्ठप्रकारता निरूपितभूतलनिष्ठविशेषता हा समीचीनं तन्निरूपकं ज्ञानम् अस्तु अग्रे भूतल भूतल्निष्ठविशेषतानिरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति वा वक्तव्यम् अत्र घटनिष्ठप्रकारतानिरूपकं ज्ञानम् अस्ति तद् भूतल्निष्ठविशेषतानिरूपितघटनिष्ठप्रकारतानिरूपकं समीचीनं <laughs> <laughs> सम्यक् इति परस्परनिरूप्य निरूपकनिरूप्यभावः अस्ति विषयतानां मध्ये इति अन्ततो गत्वा या कापि भवतु या कापि भवतु विषयता प्रकारता भवतु संसर्गता भवतु अथवा विशेषता भवतु तस्य निरूपकं किं तस्याः निरूपकं ज्ञानं सम्यक् ज्ञानं ज्ञानमेव निरूपयति या विषया भवतु ताम् इति उदं वा हा अत्र उदाहरणे घटनिष्ठप्रकारतः निरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं तत्र द्वयोः विशिष्यतायाः निरूपकं ज्ञानम् इति दत्तमस्ति परन्तु तिस्रः विशेष्यतायाः अपि निरूपकं ज्ञानम् अस्ति अतः वयं सर्वे सर्वे विशेषतायाः निरूपकं ज्ञानम् इति वक्तुं शक्नुमः वा अवश्यम् अवश्यं संसर्गता विषये वदतु प्रयत्नं करोतु घटनिष्ठप्रकारतानिरूपित संयोगनिष्ठसर्गता निरूपित विशेष्यतानिष्ठविशेष्यतानिरूपकं ज्ञानम् अवश्यं वक्तुं शक्यते अथवा निरूपितसंयोगनिष्ठसंसर्गतानिरूपकं ज्ञानं तावदपि वक्तुं शक्यते हा भवता यदुक्तं तत् समीचीनमेव त्रीन् मिलित्वा उक्तवान् खलु समीचीनं तथा महोदय अस्तु अस्तु अग्रे सरे आ, वा अग्रेट् नास्ति वा घटे जलमस्ति जले मीनः अस्ति चेत् विशेषः सङ्ख्याः अधिकाः घटे अस्तु यदि भवान् तत् सर्वं पश्यति चेत् घटवत् न मीनवत् घटः गता इति पश्यति चेत् भवान् किमकिम किं पश्यति एकस्मिन् क्षणे इति आधारीकृत्य भूतले घटं पश्यति घटे मीनमपि पश्यति चेत् खतम तत्र वस्तुतः महोदय अहं चिन्तयामि तिस्रः एवस्याति स्यात् इति यतोहि एतादृशसम्बन्धः कल्पनीयः इति अक, अक्वेरियम् अस्ति चेत् अक्वेरियम् अस्ति चेत् तत्र अक्वेरियं मध्ये मीनः अस्ति इति एकं ज्ञानम् वस्तुतः भवता एकस्मिन् क्षणे किं ज्ञानम् अस्ति अपि च ज्ञानस्य आकारः कः इति दृष्ट्वा निर्धारणीयमिति अस्तु अस्तु श्रीधर महोदय अग्रे कृपया विषयतारूपः सम्बन्धः तत्प्रभेदश्च निरूपितः ताश्च तिस्रः अपि विषयताः परस्पर इत्यस्य कस्यचित् अन्यस्य तत्र विद्यमानमित्यर्थः समाननादिकरणं ययोः तौ समानाधिकरणौ सावधानतया शृण्वन्तु समानाधिकरणम् इत्यत्र बहूनां भ्रमः भवति अस्तु अस्तु महोदय अग्रे किञ्चित् विवृणन्तु यदवगतम् जानामि तत् प्रभेदः जानामि वाक्यं पठतुश्च सम्बन्धः अस्ति तत् प्रभेदः इत्युक्ते तस्य प्रभेदः षष्ठीतत्पुरुषसमाशः कस्य प्रभेदः तावदेव विषयतारूपसम्बन्धः अपि च तत् प्रभेदः इत्युक्ते तस्य प्रभेदः सम्बन्धस्य प्रभेदः अधुना दृष्टवन्तः खलु यतः प्रकारता संसर्गता विशेष्यता सम्यक् अस्तु ताश्च तिस्रः अपि विषयः तिस्रः अपि विषयाः वयं दृष्टवन्तः प्रकारता संसर्गता विशेषता इति तिस्रविषयताः परस्परं समानादि असमानिधिकरणाः तस्य विषयतायाः अधिकरण अधिकरणाः भिन्नाः इति बहु समीचीनं विषयताः अधिकरणाः भिन्नाः इत्युक्ते किं विषयताः अधिकरणं प्रकार अधिकरणं घटः hmm. संसर्गतः अधिकरणं um, संयोगः hmm. um, विशेषत्याः अधिकरणं भूतलम् अतः अधिकरणं भिन्नं hmm. समीचीनं महोदय अस्तु इति परस्परम् असमानाधिकरणाः अधुना पश्यतु अग्रे कु अर्थः अर्थः कः न समानाधिकरण अधिकरणं भिन्न सः एव अर्थः समानाधिकरणमिति अस्य कस्यचित् अन्यस्य यत् अधिकं तत्र विद्यमानम् इति अर्थः तस्य अर्थः अन्यस् कस्यचित् अन्यस्य यत् अधिकतं तत्र विद्यमानं अन्तिमवाक्यं पठतु समानाधिकरणं ययोः तौ समानाधिकरणौ समा तस्य नाम नामकरणं समानाधिकरणं अधुना प्रश्नः उदेति समानाधिकरणम् इत्युक्ते किं सूचयति अधिकरणं सूचयति वा अथवा अधिकरणे विद्यमानौ पदार्थौ सूचयति वा बहु समीचीनं कथं वदति महोदय कथं ज्ञातवान् समानादिकरं भवान् अवगतवान् किञ्चित् प्रतिपादयतु इति अस्तु अग्रिमचित्रं पश्यतु अग्रिमपृष्ठे चित्रे किमस्ति चित्रे घटः अस्ति घटे घटत्वम् अस्ति प्रतियोगितापि अस्ति अतः द्वयोः अधिकरणं घटः एव so, समाजिता द्वे समानाधिकरणौ द्वौ समानाधिकरणौ समीचीनं परन्तु घटः अपि समानाधिकरणम् अस्ति न वा घटः अधिकरणमेव तस्य अधिक घटः अधिकरणम् अन्तिमवाक्यस्य आधारेण समानाधिकरणं ययोः ययोः इति षष्टि विभक्ति आम् आं कयोः घटत्वं परियोगिता हा तयोः समानाधिकरणं किम् घटः घटः हा बहु सम्यक् तयोः समानाधिकरणं घटः अतः समानादिकरणौ तौ समानाधिकरणौ इति बहुव्रीहि समासः समानाधिकरणं इत्युक्ते आरम्भे घटः एव यतोहि घटस्यैव घटत्वस्य अधिकरणम् अपि घटः प्रतियोगितायाः अधिकरणमपि कः घटः इति समानाधिकरणम् तदर्थमेव उक्तं समानादिकरणं ययोः तौ समानाधिकरणौ इति बहुव्रीहिः समासं कृत्वा घटत्वम् अपि च प्रतियोगिता समानाधिकरणौ इति पदार्थद्वयं सूचयति नो चेत् आरम्भे समानाधिकरणम् इत्युक्ते घटः एव परन्तु यत्र कुत्रापि अग्रे गत्वा समानाधिकरणम् इति पश्यामश्चेत् प्रायशः तस्य अर्थः अस्ति समान अधिकरणे तदिति अवगच्छति वा तदर्थमेव उक्तमत्र स्थूलाक्षरे समानाधिकरणम् इत्यस्य कः अर्थः कस्यचित् अन्यस्य यत् अधिकरणं तत्र विद्यमानत्वम् इति अधुना घटः अस्ति अस्तु घटे रूपम् अस्ति गन्धः अस्ति अधुना वदतु महोदय समानाधिकरणौ कौ तत्र समाना रुपम रुपम हा समानाधिकरण वस्तुतः इति घटः समानाधिकरणम् इति सत्यं किन्तु बहुभिः समासं कृत् कृत्वा समानाधिकरणं कौ गन्धः रूपं च गन्धः तौ समानाधिकरणौ इति बुद्धं वा इत्येव समानाधिकरणम् इत्युक्ते एकस्य अधिकरणे अपरस्य विद्यमानत्वम् इति समानाधिकरणं तस्य भावः अस्ति सामानाधिकरण्यम् समानाधिकरणम् इति रूपम् अथवा गन्धः तस्य भावः सामानाधिकरण्यम् सामानाधिकरण्यं कुत्र वर्तते इति चेत् सामानाधिकरण्यं रूपे अपि च गन्धे वर्तते यतोहि रूपम् इति समानाधिकरणम् गन्धः इति समानाधिकरणः तयोः मध्ये यः भावः अथवा धर्मः अस्ति तद् समानाधिकरण्यम् उद्वा सम्यक् तर्हि अग्रे सरेम आण्ड्रे महोदय पठति वा अग्रिमपरिच्छेदम् अत्र घटत्वसमानाधिकरणा प्रतियोगिता प्रतियोगिता समानाधिकरणं घटत्वम् प्रकृते तु प्रकारतादयः तिस्राः विषयताः न परस्परं समानाधिकरणाः यतोहि घटत्वे घटत्वे <coughs> प्रकार अत्र मुद्रणदोषः घटे प्रकारता इति अतः नात्र द्वयोर् एकम् अधिकरणं परन्तु विषयिता इति यः सम्बन्धः ज्ञाने विषयस्य तस्या च ये अवन्तरभेदः निरूपणसौकर्याय स्वीक्रियन्ते तेषु तेषु प्रदेश तेषु न परस्परम् असमानादिकरणीयं किन्तु सर्वाः अपि विषयिताः ज्ञाने एव भवन्ति इदानीं यत् उक्तं तत्र अस्माभिः तत्र भवत्या यदुक्तम तत्र हि यः यहा इदानीं पुनरेकवारं तत्र प्रदर्श्यते नाम घटत्व अत्र घटत्वा समानाधिकरण प्रतियोगिता यत् उक्तं घटत्वं समानम् अधिकरणं यस्याः सा प्रतियोगिता बहु समीचीनं महोदय इतोपि एकवारं वदति अधिकरणं यस्याः सा प्रतियोगिता घटत्वस्य घटत्वसमानाधिकरणं समीचीनमेव घटत्वसमानाधिकरणं यस्याः सा प्रतियोगिता प्रतियोगिता तदेव प्रतियोगिता अथवा प्रतियोगितायाः सम प्रतियोगिता एवमेव प्रतियोगितायाः समानम् अधिकरणं यस्य तत् घटत्वम् घटत्वं समीचीनम् ओके परन्तु इदानीं तु प्रकृते एतत् सर्वं नास्ति प्र प्रकार प्रकारतादयः चिस्रः विस्रः विषयाः विषयताः अस्माभिः इदानीं निरूपयन् निरूप निरूपणीयाः अतः एव उच्यते तत्र आचार्यैः सः प्रकृते याः प्राविषयताः अस्माभिः निरूपिताः तासु सर्वासु समानादिकरणीयं नास्ति यतोहि प्रकारता घटत् घटे प्रकारता घटे ससर्गता संयोगे अपि च विशिष्यता भूतले अतः एव तेषु तेषु अधिकरण आदिकरन, अधिकार अधिकरणानि भिन्नानि अतः एव समानाधिकरण्यं नास्ति mm. परन्तु यत् यः यः किं यः सम्बन्धः ज्ञाने वर्तते ज्ञा ज्ञाने अनुयोगिरूप ज्ञाने अनुयोगिने यः सम्बन्धः विषयिता नाम वर्तते सः ज्ञाने एव सः तस्याः तस्य प्रभेदाः सर्वे एव ज्ञाने सन्ति तत्र विषयिता यथा तथा तत्र यथा विषयिता चित्राः तथापि विषयिता सप्रकरिता वा तथा तथैव प्रकरिता सज्जिता प्रकरिता एवम् अतः एव तत्र अधिषयिताः तिस्राः ये याः सन्ति ताः ज्ञाने एव सर्वे सर्वाः तिष्ठन्ति अत एव तेषाम् तासां समा तासाम् अधिकरणं समानम् एव अत एव समानाधिकरण्यं तासम् अस्ति हा समीचीनं महोदय तर्हि विषयतानां समानाधिकरण्यं नास्ति नाम विषयताः असमानाधिकरणाः परन्तु विषयिता इति यः सम्बन्धः अस्ति ज्ञाने विषयस्य सम्बन्धः तत्रापि तिस्रः विषयिताः अत्र किमुक्तम् अवान्तरभेदाः निरूपणसौकर्याः सौकर्याय स्वीक्रियन्ते अवान्तरभेदाः इत्युक्ते उपभागाः इति चिन्तयन्तु अवान्तरः इत्युक्ते रेस्पेक्टिव् तथा यथा त्रिषु याया आसन ताहा ताहा या आसन विषयता आसन् ताः ताः भिन्नाः तद्वदेव ज्ञाने या विषयिता अस्ति तस्यापि निरूपणसौकर्याय अवान्तरभेदः इत्युक्ते भेदः कल्प्यते तत्र तेषु न हा विषयिता इति यः सम्बन्धः ज्ञाने तस्य च ये अवान्तरभेदाः निरूपणसौकर्याः स्वीक्रियन्ते तेषु न परस्परम् असमानाधिकरण्यं न असमानाधिकरण्यम् इत्युक्ते सामानाधिकरण्यमेव इति यतोहि यथा महोदयेन उक्तं सर्वाः विषयिताः ज्ञाने एव भवन्ति इति वार्ता बुद्धं वा राधिकाभगिनी सीमाभगिनी यद् पृष्टवत्यौ अधुना आगच्छति विषयाः विषयिताः अपि तिस्रः परन्तु ते सर्वे ताः सर्वे सर्वाः ज्ञाने एव इति अस्तु हा अस्तु तर्हि किञ्चित् अग्रे सर्तुं शक्नुमः भानुचैतन्यमहोदय पठितुमिच्छति वा सीमा भगिनि अग्रे कृपया अत्र okay. एतत् उद उदाहरामः करदीपं प्रज्वाल्य तस्य पुरतः अङ्गुष्ठवर्जनम् अङ्गुलीचतुष्टयं प्रसारयामश्चेत् तिस्रः अर्च्यः निर्गच्छन्ति तासु उपरिता अर्चिः घटे आप पतति इति सा प्रकारता मध्यमा संयोग संयोग संयोगता ग द्वयमस्ति न संयोगता ओके संयोगगता संसर्गता निम्ना भूतलगता विशेषता इति भवेत् एवञ्च प्रकारता प्रकारतादीनाम् असमानादिकरण्यं प्रकारतादीनाम् असामानादिकरण्यम् समर्थितं भवति अधुना अधुना प्रकारता विषये एव वदति एतावता किम् अवगतम् इति भगिनि अस्तु अस्तु अत्र दृष्टान्तं द्रष्ट दत्तः यदि एकं करदीपं स्वीकृत्य तस्य पुरतः Hmm, अङ्गुलिचतुष्टयं प्रसारयामश्चेत् तिस्रः प्रभाः निर्गच्छन्ति तासु अवगच्छति वा भगिनि इत्युक्ते एकः करदीपः इति सोर्स् अस्ति सोर्स् मूलम् अस्ति तस्य पुरतः अङ्गुलीचतुष्टयम् इत्युक्ते अङ्गुलिनां मध्ये आम् अङ्गुलिनां मध्ये कति भागाः सन्ति तिस्रः भाग अतः तिस्रः प्रभाः निर्गच्छन्ति उपरिताना प्रभा घटे पतति सा प्रकारता अस्ति मध्यमा संयोगे पतति सा संसर्गता अस्ति निम्ना भूतले पतति सा अस्ति विश क्षमता विशेषता अस्ति एवं च प्रकारतादीनां असामानादिकरण्यं समर्थितं भवति एवं च आ, प्रभा आ भिन्ने भिन्ने अधिकरणे पतति अतः ते Uh, प्रभायाः अधिकरणं भिन्नमस्ति एवं च प्रकारता प्रकारतायाः संयोगस्य विशेषतायाः अधिकरणमपि भिन्नं भवति पुनः hmm. वदतु विषयताः काः अक्षयः काः न अधिकरणम् अधिकरणं भिन्नं भवति अधिकरणानि भिन्नानि अधिकरणानि भिन्नानि भवन्ति सत्यम् किं कुत्र पतति इति पुनः एकवारं वदतु आम् प्रभा आ, या उपरि अस्ति सा प्रभाघटे पतति तस्या सा तस्याः तस्या, तस्या, नाम प्रकारता अस्ति मध्यमा प्रभा या अस्ति सा संयोगे पतति तस्याः नाम संसर्गता अस्ति अधो प्रभा सा विशेष्यतायाः भूतले पतति तस्याः नाम विशेष्यता अस्ति अतः प्रकारतायाः अधिकरणं घटः अस्ति संसर्गतायाः अधिकरणं संयोगः अस्ति विशेषतायाः अधिकरणं भूतलम् अस्ति अतः तेषाम् अधिकरणानि भिन्नानि सन्ति हा भिन्नानि इति कृत्वा ताः न समान ताः न समानाधिकरणाः सत्यं समीचीनं ताः न समानाधिकरणाः अथवा तासु सामानाधिकरणीयं नास्ति असामानादिकरणीयम् अस्ति <laughs> हा असामानाधिकरण्यमस्ति समीचीनम् इत्येव उक्तं प्रकारादीनाम् असमानाधिकरण्यं समर्पितम् एतदुदाहरणं स्वीकृत्य अस्तु mm. अधुना अग्रे आगच्छति ज्ञाने या विषयि विषयिता अस्ति तस्य विषये किञ्चित् अग्रे इति राधिका भगिनि परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर्गतकाच् तेतु काचे दृश्यन्ते ते तु एकत्रैव भवन्ति यथा घटप्रतिबिम्बः सं, काचे भवति यथा संयोगप्रतिबिम्बः तत्रैव एवं भूतलप्रतिबिम्बोऽपि एषः प्रतिबिम्बः प्रति एव ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इत्युच्यते अत्रापि विषयितम् इति सामान्य संज्ञा प्रकारित संसर्गित इति च विशेष विशेषरूपाः प्रतिबिम्बित् प्रतिपादयतु अस्तु परन्तु यद् तेषां भूतल् भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर्गतकाचे दृश्यन्ते यदि वयं करदीपे गत्वा पश्यामः चेत् तत्र तु वयं न वक्तुं शक्नुमः प्रकारता अथवा संसर्गतायाः विषयः वयं पृथक् न कर्तुं शक्नुमः अत्र का वार्ता भगिनि तेषां भूतलादीनां इत्युक्ते ज्ञानस्य कति कति विषयाः विषयिता तु त्रयः न विषयस्य विषये विषयः कति विषयः विषयत्रयम् अस्ति इदानीं विषयत्रयं किम् विषयत्रयं तु भूतलं तदनसंयोगः तदनन्तरं घटः घटः इत्येव अत्र आरम्भे उक्तम् इत्युक्ते करदीपः अस्ति तस्य प्रभा भूतलादिषु पतति खलु भूतलादीनाम् इत्युक्ते विषयत्रयं घटः अपि च भूतलं संयोगः तस्य उपरि पतति अपि च अग्रे पठतु भूतलादीनां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः करदीपान्तर्गतकाचे दृश्यन्ते दृश्यन्ते प्र, ते तु एकत्रैव भवन्ति यदि वयं प्रतिबिम्ब प्रतिबिम्बाः त्रयाः भवति खलु वयं करदीपस्य अन्ते गत्वा काच इत्युक्ते काचः इत्युक्ते ग्लास् ग्लास् अस्तु करदीपस्य ग्लास् अस्ति खलु तस्य कस्वं किं पतति तत्र तु दीपः एकः दीपः अस्ति इति सत्यं किन्तु ग्लास् इति करोति इति कृत्वा तत्र प्रतिबिम्बाः भवन्ति न वा केषां प्रतिबिम्बाः भवन्ति तत्र तत्र पश्यामश्चेत् भूतलः भूतलं क्षमितं भूतलं संयोगः समीचीनम् इति इति त्रयाणामपि प्रतिबिम्बाः तत्रैव एकस्मिन् स्थले भवति खलु हा अस्तु तत् तद् उदाहरणम् अथवा तां ताम् उपमां स्वीकृत्य अग्रे किञ्चित् वदन्ति अग्रे पठतु भगिनी अस्तु यथा हि घटप्रतिबिम्बः काचे भवति तथा संयोगप्रतिबिम्बः तत्रैव एवं भूतलप्रतिबिम्बोपि इदानीं वयं दृष्टवन्तः घटस्य प्रतिबिम्बः तदनन्तरं संयोगस्य प्रतिबिम्बः भूतलप्रतिबिम्बः प्रतिबिम्बत्रयमपि एके एव भवति एषः प्रतिबिम्बः एव ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इति उच्यते Uh, प्रतिबिम्बः uh, एकत्र एव भवति तादृश तादृशं ज्ञाननिष्ठविषयसम्बन्धः uh, विषयिता एकः एव भवति नाम इदानीं यथा अस्माकं पूर्वम् उदाहरणमासीत् करदीपः इति ज्ञानम् इति चिन्तयतु करदीपं ज्ञानस्थानमापन्नम् इति चेत् तस्मात् प्रभात्रयं पतति विषयेषु खलु हाँ. परन्तु विषयाणां प्रतिबिम्बः सर्वाः सर्वे कुत्र पतन्ति एकत्र चिन्तयितुं शक्नुमः तर्हि एषः प्रतिबिम्बः एव ज्ञाननिष्ठविषयसम्बन्धः इत्युक्ते ज्ञाननिष्ठसम्बन्धः कः ज्ञाननिष्ठन्धः विषयित विषयिता अपि च विषयः ज्ञाने केन सम्बन्धेन भवति चिन्तयतु इतोपि एकवारं ज्ञाने hmm. विषयिता अस्ति खलु ज्ञाने विषयिता अस्ति ज्ञाननिष्ठविषयिता केन निरूपिता भवति uh. पदार्थे निरूपयति इति वक्तुं शक्यते अथवा सरलरीत्या यथा वयं तत्र दृष्टवन्तः घटनिष्ठविषयतानिरूपकं ज्ञानं तद्वदेव ज्ञाननिष्ठविषयितानिरूपक घटः इति अपि शक्यते खलु इत्युक्ते यः विषयः अस्ति तेन स्वनिरूपितज्ञाननिष्ठसम्बन्धः कः ज्ञाननिष्ठसम्बन्धः विषयिता विषयिता विषयिता निरूपयति घटः विषयिता विषयितां निरूपयति घटः इति वक्तव्यं यतोहि घटेन निरूपिता विषयिता घटः इति विषयः तदर्थमेव उक्तः अत्र ज्ञाननिष्ठयसम्बन्धः विषयिता इति अस्तु अपि च सा विषयिता ज्ञाने एव अग्रे किञ्चित् पठतु भगिनी अग्रिमवाक्यमेकं <coughs> द्वयम् अत्रापि विषयित्वम् इति सामान्य संज्ञा प्रकारिता संसर्गित विशेषिता इति च विशेषरूपाः विशेष विशेष विषयित्वम् इति सामान्या संज्ञा वयं विषयिता इति दृष्टवन्तः विशे विषयित्वम् इति वयं सामान्य सामान्यतया वयं वदामः तत्र विषयित्वे प्रकारिता संसर्गित विशेषिता इति विशेषरूपाः भवन्ति हा समीचीनम् इति इत्युक्ते नामकरणं यथा विषयतायाः संज्ञान्तरं नामकरणं जातं तद्वदेव विषयिता अथवा विषयित्वं समान सामान्यसंज्ञा विषयिता इति तल्प्रत्ययः विषयित्वम् इति त्वाप्रत्ययः समानः अर्थः अस्तु विषयिता इति सामान्यसंज्ञा तत्र प्रभेदाः चित्रः प्रकारिता संसर्गिता विशेषिता विशेषरूपाः यथा गणेशः शुक्लः तद्वत् विषयिता सामान्य प्रकारिता संसर्गिता विशेषिता विशेषरूपाः अस्तु अत्र स्थगयामः अद्य कोऽपि प्रश्नः वा कस्यचित् आगच्छति पुनः महोदय प्रायः करदीपस्य काचः इत्युक्ते ग्लास् इति महोदय करदीपः इति टार्च् इन् द फ्लास्क् इत्युक्ते प्रायः ग्लास् इत्येव ते सूचयितुम् इच्छन्ति तस्य रचना अस्ति हा ओ अस्तु तस्य रचना अस्ति ओ अस्तु अस्तु इति किमपि स्यात् तथा अस्तु अस्तु तर्हि पुनर्मिलामः धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः